वैशंपायन उवाच एवन्तु ब्रुवतस्तस्य मैत्रेयस्य विशाम्पते ऊरूम् गजकराकारम् करेणाभिजघानसः दुर्योधनस्मितम् कृत्वा चरणेनोल्लिखन्महीम् न किञ्चिदुक्त्वा दुर्योधास्तस्थो किञ्चिदवाङ्मुखः तमशुश्रूषमाणन्तु विलिखन्तम् वसुन्धराम् दृष्ट्वा दुर्योधनं राजन् मैत्रेयं कोप आविशत् सकोपवशमापन्नो मैत्रेयो मुनिसत्तमः विधिना सम्प्रणुदितः शापायास्य मनोदधे ततः मैत्रेयो धार्तराष्ट्रं तमसपद्दुष्टचेतसं यस्मात्त्वं मामनादृत्य नेमां वाचं चिकीर्षसि तस्मादस्याभिमानस्य सद्यः फलमवाप्नुहि त्वदभिद्रोहसंयुक्तम् युद्धमुत्पत्स्यते महत तत्र भीमो गदाघातैस्तवोरुम् भेत्स्यते इत्येवमुक्ते वचने धृतराष्ट्रो महीपतिः प्रसादयामासमुनिम् नैतदेवम् भवेदिति मैत्रेय उवाच शमं यास्यति चेत्पुत्रस्तव यदा तदा शापो न भविता तात ता विपरीते भविष्यति वैशंपायन उवाच विलक्षयं स्तु राजेन्द्रो दुर्योधनपिता तदा मैत्रेयं प्राहकिर्मिरः कथं भीमेन पातितः मैत्रेय उवाच नाहं वक्ष्यामि ते भूयो न सुतः एष ते विदुरः सर्वमाख्यास्यति गते मयि उवाच इत्येवमुक्त्वा मैत्रेयः प्रातिष्ठत यथागतं किर्मीरवधसंविघ्नो बहिर्दुर्योधनो ययौ इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि मैत्रेयशापे दशमोऽध्यायः